श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवते महापुराणे सप्तमस्कन्धे विंशोऽध्यायः हरिश्चन्द्र उवाच दत्त्वा ते हिरण्यं वै न करिष्यामि भोजनं प्रतिज्ञा मुनिश्रेष्ठ विषाद्धं त्यज <Sess> सूर्यवंश समद्भूतः क्षत्रियोऽहमहीपतिः राजसूयस्य यज्ञस्य कर्ता वा कथं करोमि नाकारम् स्वामिन् दत्वा यदृच्छया अवश्यमेव दातव्यम् ऋणं ते द्विजसमय स्वस्थो भवस्यामि सुवर्णं मनसे सेप्सितम् कञ्चित् कालम् प्रत्यक्षस्व यावत् प्राप्स्याम्यहम् धनम् विश्वामित्रोच उतस्ते भविता राजन् धनप्राप्तिरतः परम् गतम् राज्यम् तोषु बलम् चैवाससाधनम् वृथा चाते महे पाल धनार्थे किम् करोम्यहम् निर्धनम् तां च लोभेन पीड़यामे कथं नृपे तस्मात् कथय भोपाल न दास्यामीति साम्प्रतं त्यक् त्यक्त्वा सां महतिं कामं गच्छाम्यहम् अतः परं यथेष्टं व्रजराजेन्द्र भार्यापुत्रसमन्वितः सुवर्णं नास्ति किं तुभ्यं ददामीति वदातु <coughs> गच्छन् वाक्यमिदम् श्रुत्वा ब्राह्मणस्य च भूपतिः पत्युवाच मनीम् ब्रह्मन् धैर्यम् कुरु ददाम्यहम् मम देहोऽस्ति भार्यायाः पुत्रस्य च ह्यनामयः या। क्रीत्वा देहम् तु तम् नूनम् दास्यामि चेद्विजय ग्राहकम् पश्य विप्रेन्द्र वारा दास भायवं सदा वाराणस्याभो दासं गमीषा सदापुत्रकृहणका पूर्णम साधम भारद मुने मौल्वा सर्वा नुष्टोधर ब्रुवं जगा सत्न सुतान्वे उमया कान्तया साधम् यत्र ते शङ्कर स्वयम् तां दृष्ट्वा च पुरीं रम्याम् मनसोल्लादकारिणीम् उवाच स कृताथोऽस्मि पुरीम् पश्यन्तु वचसन् ततो भागीरथिम् प्राप्य स्नात्वा देवातितर्पणम् देवाचनम् च निर्वर्त्य कृतवान् दिग्विलोकनम् प्रविश्य वसुदायपालो सुधा पारो दिव्याम् वाराणसीं पुरीम् नैषामनुश्च भोक्तेति शूलपाणे परिग्रह जगाम पद्भ्याम् दुःखातः स पत्न्या समाकुलः पुरीम् प्रविश्य स नृपो विश्वासम् अकरोत् तदा ददृशेथ मुनिश्रेष्ठम् ब्राह्मणम् दक्षिणार्थिनम् तम् दृष्ट्वा समनु प्राप्तम् विनयावनतो भवत् प्राशैवाञ्जलिम् कृत्वा हरिश्चन्द्रो महामुनिम् इमे प्राणा सुत चायम् मुने मम येन ते कृत्यमस्याशु गृहमाद्य द्विजोत्तमे यच्चन्यत् कार्य कार्यमस्माभि तन्ममाख्यातुमर्हति विश्वामित्र पूर्णश्च मासो भद्रन्ति दीयताम् मम दक्षिणा पूर्वम् तस्य निमित्तम् हि स्मर्यते स्ववचो यदि ब्रह्मन्नाद्यापि सम्पूर्णो मासो ज्ञानतपोवले तिष्ठत्येकदिनासं यत् तत्प्रीक्षस्वना परम् एवम् अस्तु महाराज आगमिष्याम्युन शापं तमी न चेद प्रय्छतिथ यशो विपुर राजा चाचि तदा कथमस्मे प्रयचा दक्षिणा प्रतिश्रुताय कुत पुष्टा मित्रण कुथ सांप्रतम मे प्रतिग्रह प्रदृष्टोमे तत्र या च कथं भवेत् राज्ञां वृत्तित्रयं प्रोक्तं धर्मशास्त्रेषु निश्चितम् यदि प्राणान् द्विभुञ्चामि यप्रदाय च दक्षिणाम् ब्रह्मस्वाहाय कृमिपापो भविष्याम्यध माधव अथवा प्रेततां यासे वरेवात्मविक्रयः वाच राजानं व्याकुलम् दीनम् चिन्तयानम् मधोमुखम् पत्युवाच तदा पत्नी बाष्पे गद्गदया गिर त्यज चिन्ताम् हरज स्वधर्मम् अनुपालय प्रेतवद्वजने यो हि नरस्य बहिष्कृतः नातः धर्मं वदन्ते पुरुषस्य च यादृशं पुरुषव्याहे स्वसत्यस्यानुपालनम् अग्निहोत्रमधीतं च दानाध्यासकलाक्रियः भवन्ति तस्य वैफल्यम् वाक्यं नृतं भवेत् सत्यम् अत्यन्तमुदितम् धर्मशास्त्रेषु धीमताम् तरणाय नृतं तद्वत् पतनाय कुतात्मनाम् चाश्वमेधानादृत्य राजसोऽयं च पार्थिवः कृत्वा राजा चक्रु स्वरात् असत्येवनच्युतः राजोवाच वंश्य वृद्धिकर चायं पुत्र तिष्ठति बालकः उच्यतां व्यक्तु घामासि गजगामिनी पत्नी जन्मा सत्यम ते पुताय देसवच ययो पश्रुत योग मोहम्मीपति पतिब्य संज्ञा वै विरुखि भुखम विदम भद्रे यत्त्वमेवम् ब्रवीष मे किं तव अस्मितधन्दा मम पापश्च विस्मृतः आहा त्वया कथम् योग्यम् वक्तुम् एतत् शुचिस्मिते दुर्वाचमेतद्वचनम् कथम् वदसि भामिनी इत्युक्त्वा नृपति श्रेष्ठो न धीरोदारविक्रये दीपपाठ मयि पृष्ठे मूर्छयापि परिप्लुतः शयानम् भुवि तम् दृष्ट्वा मूर्छयापि महीपतिम् वाचेदम् सुकरुणम् राजपुत्री सुदुःखिता हा महाराजकर्षेदम् अपध्यानात् परागतम् यस् तन्न प्रति भूमौ रङ्कवचरणोचितः येनैव कोटिशोवित्तम् पिप्राणामपवर्जितम् स एव पुे नाथो भुवि स्वपितिमे पतिः हा कष्टम् किं तनेन कुतम् दैव महीक्षिता यदिन्द्रोपेन्द्रतुल्योऽयम् नीत पापमिमां दशाम् इत्युक्त्वा सापि शुश्रोणी मूर्छिता निपपातः वस्तु दुःखमा भारेण असह्येनातिपीडिताय शिशुर्दृष्ट्वा क्षुधा वितः प्रहेवाक्यं सुदुःखितः ता तात तात् उपदेह्यन्नम् मातर्मे भोजनम् क्षुन्मे बलेव जिह्वाग्रे मेति चूष्यते इति श्रीमते भागवते महापुराणे तादृशसंहितायाम् सत् नमस्कारे हरिश्चन्द्रोपाख्यान वर्णनं नाम नीचोध्याय है श्री जगदम्बिकायार्पणमस्तु